यणीयं दशकं नैन्टि भ्रुग मल्टिपल् मीटर्स् मृगभृगुमुनिमोहिन्यम्बरीषादिवृत्तेष्वयितवहिमहत्वं सर्वसर्वादिजैत्रं स्थितमिह परमात्मन्निष्कलार्वागभिन्नं किमपि यदवभादं तद्धिरूपं तदैव मूर्तित्रयेश्वरसदाशिव पञ्चकं यत् प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् तत्रेश्वरस्तु सविकुण्ठपदस्त्वमेव त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे तत्रापि सात्विकधनुं तव विष्णुमाहो दादातु सत्त्वविरलो रजसैव पूर्णः सत्त्वोत्कटत्वमपि चास्ति तमोविकारचेष्टादिकं च तव शङ्करनाम्नि मूर्तौ तं च त्रिमूर्त्यधिगतं परपूरुषं त्वां सर्वात्मनापि तदपि स्वतस्तुत्वद्रूपमित्यधिदृढं बहु न प्रमाणम् भगवान् सकलेषु तावत् त्वामेव मानयदि यो पक्षपादी त्वन्निष्ठमेव स हि नाम सहस्रकादिव्याख्याद्भवत् स्तुतिपरश्च गतिं गदोन्दे मूर्तित्रयाधिगमुवाच च मन्त्रशास्त्रस्यादौ कलाय सुषमं सकलेश्वरं त्वां ज्ञानं च निष्कलमसौ प्रणवे खलु त्वामेव तत्र सकलं निजगाद नान्यं समस्तसारे च पुराणसङ्ग्रहे विसंशयं त्वन्महिमैव वर्ण्यते त्रिमूर्तियुक्सत्यपदत्रिभागधः परं पदं ते कथितं नशूलिनः शूलिनः यद्ब्राह्मकल्प इह भागवदद्वितीयस्कन्दोदिदं वपुरनावृतमिष धात्रे तस्यैव नाम हरिशर्वमुखम् जगादश्रीमाधवत् शिवपरोऽपि पुराणसारे यस्वप्रकृत्यनुगुणा गिरिशम् भजन्ते तेषाम् फलं हि दृढयैव तदीयभक्रिया व्यासो हि तेन कृतवानधिकारि हेतोस्कान्तादिकेषु तव हानिवचोऽर्थवादैः भूतार्थकीर्तिरनुवादविरुद्धवादौ त्रेधार्थवादगधयः खलु रोचनार्थाः स्कान्तादिकेषु बहवोत्र विरुद्धवादास्त्वत्तामसत्त्वपरिभूत्युपशिक्षणाद्याः यत्किञ्चिदप्यविदुषापि विभो मयोक्तं तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव व्यासोक्तिसारमयभागवतोपगीदक्लेशान् विधूय कुरुभक्तिभरं परात्मन् सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द